कौसल्यासु प्रजा राम भोद्वासञ्झा प्रवर्तते उत्तिष्ठ न रसान् दोहलः कर्तव्यम् दैवमान्निकम् कौसल्यासु प्रवर्तते उत्तिष्ठ नरकान् दोहलः कर्तव्यम् उत्तिष्ठ गोविंद बुट्ठिष्ठ गुड़ ध्वजा उठिष्ठ बला दालाग्य मंगल कुर उत्तिषिष्ठ गोविंद बुट्ठिष्ठ गुड ध्वजा उठिष्ठ बला दाता कैराग्यम मंगल कुर मात स्वस्पता मधुक मक्ष विहारिणि मनोहर दिव्यमूर्ते श्रीस्वामिनिश्चित जनप्रियदान दीरे श्री वेङ्कटे सदयिते तव सु प्रभातम् मातः समस्प जगताम् मधुकैतभारे जन प्रियदानशीले श्रीवेङ्कटे स दजिते तव सु प्रभातम् तव सु प्रभात भरतिम् ददातले भवतु प्रसन्न भुखचन्द्र मण्डले विभिशङ्करं न वनिताभिरचिते पृष तैलनाथ दजिते द ्यादि सप्त ऋषजः स्वभूपास्य सङ्ख्या आचाशबिन्दुकबलानि मनोहराणि आकाजपादयुगमर्पयितुम् प्रपन्नाः शेदािशेष प्रभातम् पञ्चाननाभ्य भव तन्मुख विक्रमादिचरितम् विबुधा सुवन्ति भाजापति स्पठति वासरशुद्धिमारात् तेजा विभो तव सुप्रभातम् के सभुवरतिरुह ना नारिकेलपोगद्रुवादिद्रुमनः फलपालिकानाम् आवादिमन्दमनिरः ना सहदित्यगन्धैः विभो भव सुप्रभाम् उन्मील्य नेत्र युगमुत्तम पञ्जदस्थाः शास्त्रावशिष्टकदलीफलपायसा मुक्त्वा सलीलभकेलिषु पञ्चा वा यत्यनन्त चरितन्त भवानगोपि भागा समग्रमसकृत्करतारम्यम् चेदा त्रिजधरविभो तव सुप्रभातम् बृन्दावनेतमदन्दरसाधुविश्वरकेतनि नैस्व निर्यात्युपान्त धरति च बलोधरेभ्यः चा त्रिदयखरविभो तव सुप्रभातम् योऽसा जेन भो तव सु प्रभातम् पत्मै गमित्र गता वर्गाः भर्तुम् इयम् कुवरजस्य निजाङ्गलक्ष्म्या धैरीनिनादमिव बिभ्रति तीव्रताम् श्रीमन्नभिरदािलोकबन्ध श्री श्रीनिवास जगदकजयैकबिन्धो श्रीदेवता गृह भुजान्तरदिमूर्ते श्रीवञ्च जलपते तव प्रभातम् श्रीमन्नभिरदाशिलोकबन्धो भुजान्तरधिते श्रीवेन्तपथे तव सुप्रभातम् श्री स्वामि पुष्करिणि चाप्लव निर्मलाङ्गाः जयजार्मिदाहर वि